अथ षट्सप्ततितमः सर्गः तमेवम् शोकसन्तप्तम् भरतम् कैकयीसुतम् कै उवाच वदताम् श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः शोकेन भद्रन्ते राजपुत्रमहायशः प्राप्तकालम् न रपतेः कुरु सञ्ज्ञानमुत्तमम् वसिष्ठस्य वच भरतो धरणीम् गतः प्रेतकृत्यानि सर्वाणि कारयामास धर्मवित् उद्धृत्य तैलसंसेकात्स तु भूमौ निवेशितम् आपीतवर्णवदनम् प्रसुप्तमिव भूमिपम् संवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते ततो दशरथम् पुत्रो विललापसुदुःखितः किम् प्रोषिते नैय्यनागते विवास्य रामम् धर्मज्ञम् लक्ष्मणम् च महाबलम् त्वयास्यसि महाराजहित्वेमम् दुःखितम् जनम् हीनम् पुरुष सिंहेन रामेणाक्लिष्टकर्मणा योगक्षेमम् तु ते व्यग्रम् कोऽस्मिन् कल्पयिता पुरे त्वयि स्वस्तात रामे च वनमाश्रिते विधवा पृथिवीराजंस्त्वया हीना न हीनचन्द्रेव रजनी नगरी प्रतिभाति माम् एवम् विलपमानम् तम् भरतम् दीनमानसम् भूयो वसिष्ठस्तु महामुनिः प्रेतकार्याणि यान्यस्य कर्तव्याणि विशाम् पतेः तान्यव्यग्रम् महाबाहो क्रियतामविचारितम् तथेति भरतो वाक्यम् वसिष्ठस्याभिपूज्य ऋत्विक् पुरोहिताचार्याम् स्तरयामास सर्वशः ये त्वग्नयो नरेन्द्रस्य अज्ञगाराद् बहिष्कृताः ऋत्विग्भिर्याजकैश्चैव ते हूयन्ते यथाविधि राजानं राजानम् गतचेतनम् बाष्पकण्ठाभिमनसस्तमोचुः परिचारकाः हिरण्यम् च सुवर्णम् च वासाम् सि प्रतिरन्तो जनामार्गे नृपतेरग्रतो ययुः चन्दनागुरुनिर्यासान् सरलम् पद्मकम् तथा देवदारूणि चाहृत्य क्षेपयन्ति तथा परे गन्धानुच्चावचांश्चान्यांस्तत्र गत्वाथ भूमिपम् तत्र संवेशयामासुश्चिता मध्येतमृत्विजः तदाहुताशमम् हृत्वा जगोश्च ते यथा शास्त्रम् तत्र सामानिसामगाः शिबिकाभिश्च यानैश्च यथार्हम् तस्य योषितः नगरान् निर्ययुस्तत्र वृद्धैः परिवृतास्तथा प्रसव्यम् चापि तम् चक्रुरृत्विजोऽग्निचितम् नृपम् स्त्रियश्च शोकसन्तप्ताः कौसल्या प्रमुखास्तदा क्रौञ्चीनामिव नारीणाम् निनादस्तत्र शुश्रुवे आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशः ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः यानेभ्यः सरयूतीरमवतेरुर्नृपाङ्गनाः कृत्वोदकम् ते भरतेन सार्धम् नृपाङ्गना मन्त्रिपुरोहिताश्च पुरम् प्रविश्याश्रुपरीत नेत्रा भूमौ दशाहम् दुःखम् शे श्रीमद्राणे वाक्य अयोध्या ष्त सर्ग